श्रीदुर्गायै नमः अथ श्रीदुर्गासप्तशती प्रथमोऽध्यायः विनियोगः ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः महाकालीदेवता गायत्री छन्दः नन्दाशक्तिः रक्तदन्तिका बीजम् ऋग्वेदस्वरूपं श्रीमहाकाली प्रत्यर्थे प्रथमचरित्रजपे विनियोगः ध्यानम् ॐ खङ्गं चक्रगलीसुचापरिघा शूलं भुषुण्डिं शिरः शङ्खं सन्ददतीकरे त्रिनैणां सर्वाङ्गभूषाभृतां नीलाश्वकाम् शेवे महाकालिकां यामस्तौ शपते हरौ कमलजो हन्तुं मधुं कैटभम् ॐ नमश्चण्डिकायै ॐ ऐङ्मार्कुण्डे उवाच सावर्णेश्वर्यतनयो यो मनु कथ्यतेष्टम निशामये तदुत्पत्तिं विस्तराद्गदतो मम महामायानुभावेन यथा मन्वन्तराधिपः स बभूव महाभाग सावर्णिस्तनयौरवे स्वारोचिसेन्तरे पूर्वं चैत्रवंशसमुद्भवः सुरथो नाम राजा भू तस्य पालयत शम्य प्रजापुत्राणि बौरुषान् बभूवो शत्रवो भूपा कोलाविध्वंसिनस्तदां तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिन न्यूनैरपि स तैरुद्धे कोलाविध्वंसिभिर्जितः ततः स्वपुरमायातो न देशाधिपोभवत् तैस्तदा प्रबलारिभिः अमात्यैर्बलभिर्दृष्टैर् दुर्बलश्च दुरात्मभिः कोशो बलं च पठितं तत्रापि स्वपुरी ततः ततो मृगया व्याजेर यतस्वाम्य शभूपतिः एकाकी हयमारुह्य जगामगहनं वनं स तत्रासममद्राखी द्विजवर्यस्य मेधशः प्रसान्तस्वापदाकीणं मुनिशिष्योपशोभितं तस्थौक्यस्तकालं च मुनिनाथेन सत्कृतः इतश्चेतश्च विचिरं तस्मिन् मुनिवराश्रमे सोचिन्तयत्तदा तत्र मम पाकृष्टचेतनः मत्पूर्वै पालितं पूर्वम् मया हीनं पुरं हितत् मद्भित्यै स्थैरसद्वित्तै धर्मतपालते पालते नवा न जाने स मदामदह मे शूरहस्ति मदा मदः मम वैरिवशं यात का न भोगानुलप्स्यते नित्यं प्रसादधनभोजनै अनुवृत्तं ध्रुवं त्यज्य कुर्वन्त्यन्यमहेभीताम् असम्यग् व्ययशीलैस्ते कुर्वद्धि सततं व्ययं सञ्चितसोऽपि दुःखेन क्षयं कोशो गमिष्यति एतच्चान्यच्च सततं चिन्तयामा सपृष्टस्तेन कस्त्वम्भो हेतुष्ठागमनेत्रकः श्वशोकयुकस्मात्त्वं दुर्मणा इव लक्षसे इत्याकर्णमजस्तस्य भूपते प्रणयोदितं प्रत्युवाच सतं वेष्य प्रश्रयावनतो नृपं वैश्युवाच समाधिर्नाम वैश्योऽहम् उत्पन्नो धनिनां कुले पुत्रदारे निरस्तश्च धनलोभादसाधुभि विहीनश्च धनैर्दारे पुत्रैरादायमेधनं वनमभ्यागतो दुःखी निरस्तश्चाप्रबन्धुभिः सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकां प्रवृत्तिं स जनानां च दाराणां चात्रसंसितः किं नु तेषां गृहे क्षेमम् अक्षेमं किं नु कथं ते किं नु सद्वृत्ता दुर्वृत्ता किं नु भेषुताः राजवाच जयनिरस्तो भवान् लुब्ध्यै पुत्रदारादिभिर्शनैः तेषु किं भवत स्नेहम् वयसिवाच एवमेतद्यथा प्राह भवानस्मद्गतं वतह किं करोमि न बध्नाति मम निष्ठूरतां मनः दे सन्तजप्रत्यस्नेहं धनलुब्धैर्निराकृतः पतिस्वजनहार्दं च हार्दित्वेष्वेव मे मनः किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुसु तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते करोमि किं यन्मनस्ते स्वप्रीतिसुनिष्ठुरं मार्कण्डे उवाच ततस्थौ सहितो विप्र तं मुनिं समुपस्थितौ समाधिर्णामवैस्योऽसौ स च पार्थिवसत्तमः कृत्वा तु तौ यथा न्यायं यथाहुं उपवेष्टौ कथा कश्चित् चक्रतुर्वैश्च पार्थिवौ राजवाच भगवन् स्वामहं प्रष्टुम् इच्छामेकं वदस्वत् दुःखाय मन्यन्मे मनस क्वचित्तायततां विना मम त्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथाज्ञस्य किमेतन्मुनिषत्तम अयं च निकृतपुत्रै दारैभिस्तथोज्झितः सजनेन च सत्य सन्त्यक्तः तेषु एवमेव तथाहं च द्वावप्यन्त्यन्तदुःखितौ दिष्टदोषोऽपि विषये मम त्वा कृष्टमानसौ तत्किमेतन्महाभागयन्मोहो ज्ञानिनोरपि नमासि मूढता रिषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभाग याति चैवं पृथक् पृथक् दिवान्धाप्राणिन केचिद् द्रात्रा बन्धा तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्ट्या ज्ञानिनो मनुजा सत्यं किं तु तेन यतो हि ज्ञानिनः सर्वे पशुपक्षे मृगादयः ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणां नाम। मनुष्याणां च यत्तेषां तुल्यमन्यत्र शोभयो ज्ञानेऽपि सति पश्यैतान् पतङ्गाच्छावचक्षुषो कणमोक्षादितान् मोहान् भिद्यमानानपि श्रुधा मानुषामजुन व्याभ्रम् भिलाषाश्रुतान् प्रति लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि तथापि ममता वर्ते मोहगते महामाया महामायाप्रभावेण संसारस्थितिकारिणां तन्नात्र विस्मयकार्यो योगनिद्रा जगत्पते महामायाफलैश्चैषा तला समोचते जगीना चेता देंवी भगवतीकृष्ण मोहाय महाबार प्रयपति तया विसृज्यम जगदी तच्चरा चरम सेवापय सा प्रसन्ना वरदा नृणवती मुक्त सा विद्या परमा हेतभूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी राजवाच भगवन् का हि सा देवी महामायेति याम्भवान् रवीति कथमुत्पन्ना किं द्विज यत्र भावाच सा देवी यश्वरूपायदुद्भवा तत्सर्वं श्रोतुमिक्षामि तत्त्वो ब्रह्मविदाम्बर ऋषुवाच नित्यैव सा जगन्मूर्ति तया सर्वमिदं ततं तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम देवानामकारसिद्ध्यर्थम् आविर्भवति सा यदा तदा लोके सा योगनिद्रां जदा कार्ण कार्णविकृते आश्चर्यसे समभजन् कल्पान्ते भगवान् प्रभो तदा द्वावशुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णकर्णमलोद्धूतौ हन्तुं ब्रह्माडमुद्यतौ स नाभिकमले विष्णो स्थितो ब्रह्मा प्रजापते दृष्ट्वा तावसुरौ चोग्रौ रसुप्तं च जनातनं तुष्टावयोगनिद्रां ताम् एकाग्रहृदयस्थितः विबोधनार्थाय हरे हरिनेत्रकृतालयां विश्वेश्वरीं जगद्धात्रिं चतुसंहारकारिणीं निद्रां भगवतीं विष्णो अतुरां तेजस ब्रह्मवाच त्वं स्वाहा त्वं सुधा त्वं हि पट्कार सुरात्मिका सुधा त्वमक्षरे नित्ये यथा मात्रात्मिका स्थिता अर्थमात्राश्रिता नित्या या लुत्या या विशेषतः त्वमेव सन्ध्या सावित्री त्वम् देवी जननी परा त्वयैतद्धारिते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवी प्रमश्यन्ते च सर्वदा विशिष्टौ सृष्टिरूपा तं चितरूपा च पालने तथा संहृतिरूपान्ते जगतो च जगन्मये महाविद्या महामाया महामेधा महाश्रु महामोहा च भवति महादेवी महाशुरी प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभावनी कालरात्रिर्महारात्रिमोहरात्रिश्च दारुणा त्वं श्रीमन्मत्रीं स्वरि त्वं इष्टं बुद्धिबोधलक्षणा लज्जा पुष्टिस्तथा तुष्टि त्वं शान्तिशान्तिरेव च फ्गिनी शूलनीघोरा गदनी चकृ तथा शूलिनो चापणी बाळ भुचण्डी परिघायुधा सौम्या सौम्यतराशेष सौम्येभ्यस्त्वतिसुन्दरी तरापराणां परमा त्वमेव परमेश्वरी यच्च किञ्चित् तस्य सर्वस्य या शक्ति किं सूयसे तदा यया त्वया जगत्स्रष्टा जगत् सोऽपि कस्मां सोतुमिहेश्वर विष्णुशरीरगहणम् अहमीशान एव च कारितास्ति यतो तस्मां स्वशोतुं शक्तिमान् भवेत् सातमित्थं प्रभावै त्वैरुदारैर्देवि संस्तुता मोहयैतौ दुराधर्षौ असुरौ मधुकैटभौ प्रबोधं च जगस्वावि नियतामर्जितो लघु बोधस्य कृतामस्य हन्तुमेतौ महाशिरौ ऋषिरुवाच देवं सुतां स्तुता देवी तामसी तत्र बीधसा विष्णो प्रबोधनार्थाय दिहन्तुं मधुकेटभौ नेत्रासि नासिका बाहु हृदिभ्यस्तसोरस निर्गम्यदर्शनेतस्थौ ब्रह्मणो व्यक्तजन्मनः उत्तस्थौ जगन्नाथ तया मुक्त जनार्दन एका सत सृशेत नुकुरात्म अतिल पर्रमौ क्रोधरक् क्षणव ब्रह्म जनि दोदम समुत्थय ततस्ताभ्या भगवान्चवर्ष सहसाणी ्राहुप्रहरणो विभो तावप्यतिबलोन्मत्तौ महामायाविमोषितौ उक्तवन्तौ वरो स्मत्तौ व्रियतामिति केशवं श्रीभगवानुवाच भवेतामद्य मे तुष्टौ मम बद्ध्यावुभावपि किमन्येन वरेणात्र एतावद्धिवृतं मम दृशिरुवाच वञ्चिताभ्यामिति तदां सर्वमापोमयं जगद् विलोकिताभ्यां गदितो भगवान् कमलेक्षणः आवां दहीन यत्रूर्वी सलिलेन परिप्लुतां ऋषिर्वाच तथेतुक्त्वा भगवतां शङ्खचक्रगदाफितां कृत्वा चक्रेण वै छिण्डे एवमेषा समुत्पन्ना ब्रह्मणा संस्कृता स्वयं प्रभावमस्यादेव्यासु भूयश्नुमदामि ते ऐं ॐ श्रीमार्कण्डे पुराणे सावर्णिके मन्वन्त्रे देवीमहात्म्ये मधुकैटवधो नाम ॐ श्रीदुर्गायै नमः